नमो नमः सर्वेषां स्वागतं नमो नमः स्वागतं सर्वेषाम् आरम्भं कुर्मः नमस्कारः राधा भगिनी प्रार्थनया आरम्भं कुर्मः वा प्रार्थनां वदति वा भगिनी मम कण्ठ सम्यक् नास्ति सो ओहो oh, शिवं वा अस्तु अस्तु अस्तु अस्तु रमा भगिनी भवती वदति वा हेड्फोन् योजितवती किं किम् न भगिनि प्रार्थनां वदति वा अस्तु हा वद नमस्ते भगिनि नमस्ते किञ्चित् उच्चैः वदतु भगिनी सम्यक् न श्रूयते किञ्चित् वदतु कृपया शान्तार अस्तु स्वागतं सर्वेषां पुनः एकवारं अधुना गतसप्ताहे वयं न कृतवन्तः तत् किञ्चित् पुनः स्मारणार्थम् एकवारं पुनः स्लैड् पश्यामः एकवारं तत् पठाम, अनन्तरं पुस्तके यद् दत्तमस्ति तस्य अध्ययनमपि वयं कुर्मः नमस्कारः नमस्कार, नमो नमः नमस्कार, नमस्कार. स्क्रीन् शेर् करोमि ओ वीना भगिनी अस्ति वा भगिनी अस्मि कुशलमस्ति भगिनि पीडा भगिनी कुशलमस्ति भगिनि स्वागतं पुनः एकवारं धन्यवादः भगिनी धन्यवादः अस्तु एकवारं पुनरावर्तनं कृत्वा कथं रूपाणि परिवर्तनानि तत्र सर्वनामपदानि सर्वनामशब्दानां दिप्त्या विभक्तिप्रयोगः इति अस्माकं विषयः एकवारं तत् स्लैड् पश्यामः कथमस्ति चेत् एतत् सर्वं एतत् सर्वं वयं कृतवन्तः पुनस्मान् हा अधुना हा विना भगिनी भवती एव पठति वा तत् पुल्लिङ्गशब्दः एकवचनं द्विवचनं प्रथमा प्रथमाविभक्ति ओके स्तः तौ ते द्वितीयाविभक्तिः तम तौ तान् तत् स्त्रीलिङ्गत्रीलिङ्ग शब्दः प्रथमाविभक्तिः सा ते ताः द्वितीयाविभक्ति hmm. भवति तां ते ताः अत्र नपुंसकलिङ्गः प्रथमाविभक्ति भवति तत् ते तानि तत् ते hmm. तानि द्वितीया प्रथमा प्रथमा विभक्ति द्वितीयाविभक्ति पुल्लिङ्ग तद् पुल्लिङ्ग तद् सीलिङ्ग तद् तद नपुंसकलिङ्ग अधुना अग्रिमे अहं कथं भवति इत्युक्ते अस्मत् शब्दस्य कृते युष्मत् शब्दस्य कृते पठतु भगिनि अहम् <laughs> आवां वयं माम् आवाम् अस्मान् युष्मद् शब्दः अपि पठामि वा आमां युष्म <laughs> त्वं युवां यूयं त्वां युवाम् युह्मान् hmm. सत्यं तथैव भवत् शब्दस्य कृते पठतु भगिनी भवत् पुल्लिङ्गः भवान् भवन्तौ भवन्तः भवन्तं त्यौ भवती भवतीं भवत्यौ भवती यथा नदी नदीनद्यौ नद्यः नदीं नद्यौ नदी तथैव अस्तु अग्रिमे तत् किं शब्दस्य कृते अपि अस्ति तत् किं शब्दस्य विषये पठति वा अस्तु भगिनि किं पुल्लिङ्गणे पुल्लिङ्गे न पुश कः कौ के कं को कान, स्त्रीलिङ्गि का के काह, काम के काह, काः नपुंसकलिङ्गि किम के काने, किम के काने, सत्यम् अस्तु पर्याप्तम् एतत् सर्वम् अस्ति सर्वदामशब्दानां द्वितीयाविभक्तिप्रयोगः अधुना अस्माकं पुस्तकं प्रति गच्छामः तत्र <laughs> अस्माकं विषयः अस्ति द्वितीयाविभक्ति इति अनंतरम तत्स व अन तथोदाह तत्वस कह मभूति जाना वैम पठित अकबर वाक्य अवलोकनम हाँ एक वाक्या उच्च पठत तत्क्र वग्रेस अस्त भारतमहोदय भवान् पठति वा एतानि वाक्यानि उच्चैः पठत पुनः एकवारं भगिनि एतानि वाक्यानि उच्चैः पठत पितामहः पितामहः तम् आह्वयति अत्र अस्ति आह्वयति धर्मराजः तं वदति hmm. हिडिम्बा कं मारयति hmm. सः सः मां वदति hmm. एषा एतौ जानाति hmm. कृपया आवां कथयतु hmm. कृष्णः युष्मान् रक्षतु गृ ति लास्ट् वन् वाज़् लेफ्ट् ओके ओके गृध्रः तान् सवान् खादति गृध्रः गृध्रः इत्युक्ते कः गीत् तत्र रामायणकाले गृध्रप्रजा प्रजातिषु एकः कः आसीत् आं नाम नाम तस्य नाम गृध्रप्रजाति हा तत् जटायु इति अस् अस्तु अग्रिमे धर्मः अस्मान् रक्षति अहं तानि जन्मानि जानामि जाना जाना आवां युवां सम्यक् जानीव मानवः तां सिद्धिं विन्दति सेना एतान् अनु अनुसरति सर्वे एतां पश्यन्तु अयतिः कां गतिं गच्छति कः मां विभूतिं जानाति कः मम विभूतिं जानाति इति तत्र भगवतः तत्र विभूतियोग तत् विभूतीनां वर्णनमस्ति खलु दशमे अध्याये मम विभूतिं कः जानाति इति तत्र ऋषीणां भृगु अस्मि अनन्तरं वेदानां सामवेदः एतत् सर्वं विभूति इति हा अस्तु अयतिः कां गतिं गच्छति तत्र इत्युक्ते किम् अयतिः कां गतिं गच्छति गति ah. इत्युक्ते गति गति मीन्स् मोमेण्टं गति आं परन्तु अत्र गीताभ्यासे गतिमित्युक्ते तत् स्व स्व वदति वा की गीताभ्यासे जब किम् अस्ति जब ज्ञानं वदति न आम् इत्युक्ते आत्मविषयकज्ञानम् इति तेन किं भवति मोक्षपदम् अस्माकम् उद्देशः किं मोक्षपदस्य प्राप्तिः तत् गतिम् इत्युक्ते शनैः शनैः अस्माकं गतिवर्धनं भवति तद् गति अधुना अयतिः इत्युक्ते कः यति अयति यति अयति इत्युक्ते यः कोऽपि अस्ति अयति इत्युक्ते यः कोऽपि प्रयत्नमेव न करोति आत्मज्ञानप्राप्त्यर्थं okay. तस्य प्राप्तिः भवेत् आत्मज्ञानप्राप्त्यर्थं तत्र परिश्रमः वा तत्र साधना वा सर्वेषां इत्युक्ते तत्र ग्रन्थानाम् अध्ययनं भवेत् वा योग योगस्य आचरणं योगाचरणं भवेत् तेन तत्र यति इति संज्ञा प्राप्यते तत् अयति यः कोऽपि प्रयत्नमेव न करोति तस्य कां गति गच्छति सः कां गतिं गच्छति इति प्रश्नः अतः yeah. yeah. ah, अत्र अत्र yeah. किं भवति काम् इति द्वितीयान्तपदं गतिम् अपि द्वितीयान्तपदम् एवं खलु का के काः कां के का इत्युक्ते तत्र का गति गति इति श्रीलिङ्गिपदम् अतः तत् का अपि त्रिलिङ्गी तस्य द्वितीया विभक्ति कां गतिं गच्छति अस्तु अस्तु अस्तु अत्र कृष्णः युष्मान् रक्षतु युष्मान् इति पद युष्मत्प्रातिपदिकम् युष्मत्प्रातिपदिकस्य द्वितीया विभक्ति बहुवचनान्त युष्मान् रक्षतु रक्षतु सर्वेषां युष्मान् दोस् आर् आल् स्टेण्डिङ्ग् इन् फ्रण्ट् आफ् मि तेषां कृते वदामि युष्मान् रक्षतु अस्तु धन्यवादः धन्यवादः सम्यक् अधुना तत् गी गीताभगिनी अस्ति गीताभगिनी भवती पठति वा यथोदा पठतु न अत्र यथो यथोधारणं रिक्तस्थानानि पूरयत् तत्पठाहं रिक्तस्थानानि पूरय पूरयत् प्रथमद्वितीय सः सा, सा, सा, सा, सा एतस्य द्वितीया का सा ते ताः अनन्तरं किं भवति सा ते सा ते ताः अनन्तरं तां सा ते ताः तां ते ताः सा ते ताः भगिनि एकनिमिष सा ते ताः इति प्रथमा अनन्तरं भवति तां ते ताः इति द्वितीया द्वितीया इति भवति अस्माकं कोष्ठमस्ति खलु अग्रिमे किमस्ति कौ कौ इति यदा प्रथमा यदा द्वितीया किं भवेत् पश्यन्तु अत्र पश्यन्तु भगिनि एकनिमेष अत्र आगच्छतु कौ कुत्र दृश्यते कौ दा <coughs> किं पुल्लिङ्गे दृश्यते किं पुल्लिङ्गे किं वचनं कः कौ के कौ इति द्विवचनम् अतः तस्य द्वितीया किं कौ एव स्पष्टमस्ति Hmm. कोष्टके पश्यतु तत्ते तानि इति प्रथमा तत्ते तानि इति द्वितीया तानि इति तानि द्वितीया Okay. तत् ते so, तानि इति द्वितीया स्पष्टमस्ति वा सन्देहः अस्ति भ्रमः क अत्र सन्देहः अस्ति भगिनि अत्र तालिका अस्ति खलु पश्यतु अत्र अत्र तालिका अस्ति कुत्र अस्ति तानि कुत्र अस्ति तद् न पुस्तकलिङ्ग पठतु तद् न पुस्तकलिङ्गकनिमिषं तद् न पुस्तकलिङ्गत् तद प्रथमा तद् द्वितीया तत् तद। अनन्तर अनन्तरं न पश्यन्तु द्विवचनं किमस्ति द्विवचन बहुवचनं किमस्ति बहु तानि हा तथैव द्वितीयान्त बहुवचनं किम् अस्ति भगिनि तत् ते तानि तथैव करणीयं अधुना अत्र पश्यतु अहम् अहमिति शक् अहम् अहम् आवां वयम् आव... इति प्रथमः अहम् आवां वयम् इति प्रथमं द्वितीया किं भवेत् भवत्यः न न अहं शब्दस्य आ... द्वितीया का अहम् आवां वयम् अहम् आवां वयम् द्वितीया आम् अवाम माम् आवाम् अस्मा द्वितीया माम भवति अहं शब्दस्य द्वितीया माम् अधुना स्पष्टमस्ति वा अधुना अत्र भवत्यः किं भवति भवत्यः भवतः पश्यतु भवत्यः भवत्यः भवन्तौ भवतः भवत्यः कुत्र दृश्यते अत्र भवत् शब्दे भवन्तौ भवन्तः भवत्यः कुत्र भवत्यः भवती भवत्यौ भवत्यः द्वितीयः किं भवति भवति भवद्यौ भवती ही, भवती इति भवति खलु भवत्याः शब्दस्य द्वितीया भवती तथैव करणीयम् अधुना अग्रे युवां हा युवामस्ति अधुना युवां शब्दस्य द्वितीया अत्र आगच्छति युष्मत् शब्दे पश्यन्तु युवां कुत्र दृश्यते अधुना युष्मत् शब्दे वदतु युवां त्वं युवां शब्दस्य द्वितीया युवाम् एव भवति अधुना ते ब्राकेट् मध्ये स्त्री इति लिखितमस्ति ते स्त्रीलिङ्गे पदं ते स्त्रीलिङ्गि अत्र आगच्छतु कुत्र दृश्यते ते स्त्रीलिङ्गि द्वितीया किं भवति एतस्य द्वितीया ते एव भवति एवं खलु अग्रे त्वं त्वम् एतस्य का स्थितिः अधुना त्वम् त्वं त्वम् अत्र अस्ति त्वं कुत्र अस्ति त्वं युवां ं शब, शब्दस्य द्वितीया त्वां तावदेव एषा एषा एषा अत्र अस्ति एषा इत्युक्ते सा एताम् इति भवति तस्य द्वितीया सा तेताः एषा भवति चेत् एता, चे एता।, एता। यूयं यूयं पुनः एकवारं युष्मशब्दस्य कृते यूयं कुत्र दृश्यते अत्र पश्यतु यूयं कुत्र अस्ति यूयं आ... त्वं युवां यु यूयं शब्दस्य द्वितीया का त्वां युवाम् युष्मान् यूयं युष्मान। यूयं शब्दस्य द्वितीया युष्मान् इति भवति अधुना ते पुल्लिङ्गी इति लिखितमस्ति ते पुल्लिङ्गी इति अस्ति चेत् कुत्र अत्र कुत्र दृश्यते ते पुल्लिङ्गीकनिमिषं भगिनि हा पश्यतु न पुल्लिङ्गी इति अस्ति न तु स्त्रीलिङ्गि पुल्लिङ्गी इति कुत्र दृश्यते कुत्र दृश्यते पश्यतु हा सः तौते तस्य द्वितीया का तौतानि तौतान् तं तौतान् इत्युक्ते ते, ते पुल्लिङ्गिशब्दस्य द्वितीया तान् इति भवति अस्तु एवं लेखने मया अधुना भवती किं करोतु पुनः एकवारं गृहाभ्यासरूपेण अस्य अस्य एतस्य भागस्य पठनं कृत्वा पुनः एकवारं तालिकां दृष्ट्वा लिखतु हा हा भगिनि अस्तु अस्तु अस्तु धन्यवादः अधुना अग्रिमे हा जयन्तीभगिनी अग्रिमे पठति वा कृपया कोष्टकस्थां सङ्ख्यां तत् पठति वा कोष्टकस्थां सङ्ख्यां दृष्ट्वा वाक्येषु hmm. द्वितीयविभक्तिं योजयत प्रथमविभक्ति विभक्तिः बावान, भवान् भवान् शब्दः ओके युवकः भवन्तं प्रेषयति ओके hmm. ओके अस्तु बेनि बालकाः बालकाः तानि पुस्तकानि क्रीणन्ति यतोहि तत् तानि इति रूपं द्वितीयान्त अपि तथैव भवति कथम् इति नपुंसकलिङ्गपदम् अस्मिन् द्वितीयविभक्ति अपि समानम् एव तानि एव भवति परन्तु अत्र भवती एवं करोति वा युवकः भवन्तं प्रेषयति द्वितीयः द्वितीयं वाक्यमस्ति माता आह्वयति तत् करोति क्रमेण अस्तु भगिनी आं भगिनि सारी न क्षम्यताम् अहं न चिन्ता मास्तु चिन्ता मास्तु अस्तु भगिनि माता डे आह्वयति माता एकनिमिषं माता माता भवती भवतीम् आह्वयति भवतीम् आह्वयति शुद्धमेव खलु बेनि भवतीम् आह्वयति भवती बालकाः बालकाः अहम् उक्तवती खलु तदनन्तरम् अहं डेस् न विस्मरतु कपयः करोतु कपयः कपयः कपयः ओके देन् फोर्त् ये सारी कपयः डेश् फलानि खादन्ति कपयः सर्वाणि फलानि खाद खादन्ति सर्वशब्द त्रिलिङ्गपि भवति बेनि सर्वः सर्वं सर्वा इति भवति अतः सर्वाणि फलानि एव तदपि भवति खलु आम् आम् सत्यमेव खलु बेनि सर्वाणि फलानि सर्वाणि अत्र अस्ति एकवारं पश्यामः पश्यन्तु अत्र अस्ति सर्वः सर्वान् सर्वं सर्वं सर्वां सर्वं अनन्तरम् अत्र सर्वौ सर्वे सर्वे सर्वौ सर्वे सर्वे सर्वे सर्वाः सर्वाणि सर्वान् सर्वाः सर्वाणि तत् पुल्लिङ्गे ीलिङ्गि नपुंसकलिङ्गि एवम् आं भगिनि अत्र तु सर्वाणि इति नपुंसक विस्मरति अहं भवन्तौ भवन्तौ शब्दस्य द्वितीयविभक्ति अपि भवन्तौ एव भवति खलु बेनि भवन्तौ न विस्मर विस्मरामि भवन्तौ भवन्तौ भवन्तं भवन्तौ एव न विस्मरामि एषः अवदत् एषः का एषः काम् अवदत् काम् अवदत् सत्यं कवयः डेस् ग्रन्थान् इच्छन्ति कवयः सेवन्त् वन् के पुल्लिङ्गं तान् ग्रन्थान् इच्छन्ति विशेषणरूपेण अपि ग्रन्थान् इति तत्र आगच्छति ततः तदपि वक्तुं शक्यते परंतु का इति ऐ मीन् के सेवेन्त् के इति पुल्लिङ्गं तस्य द्वितीयविभक्ति बहुवचनरूपं कान् एव भवन्ति अतः कवयः कान् ग्रन्थान् इच्छन्ति देवः डेस् रक्षति देवः करेक् करेक्ट् हा सम्यक् सम्यक् कः कौके कं कौक अतः तत् कान् ग्रन्थान् हा, कान हा, हा, हा, हा, हा यथा का, भवती आ, उक्तवती तत् कान् इति तत्र विशेषणपदं भवति यतो हि तत् सर्वनाम परन्तु कां ग्रन्थ इति ग्रन्थविषयकम् अधिक्येन वदति विशेष्य विशेष्यपदं ग्रन्थ तस्य विषयकः अधिक्येन वदति तः विशेषणम् अतः तत् कान् विशेषणं ग्रन्थान् इति विशेष्यं खलु सत्यं सत्यं योग्य देवः डेस् रक्षति देवः अस्मान् रक्षति वयम् इति अस्मत् शब्दस्य बहुवचन द्वितीया विभक्तिः अस्मान् रक्षति सत्यं सः सः डेस् गुडं खादिष्यति सः सर्व सः खादिष्यन्ति गुडं तत्रापि तत्रापि पुल्लिङ्ग् सर्वः इति पुल्लिङ्गशब्दम् अतः सर्वं सर्वे सर्वौ गुडं सर्वं गुडं सर्वं गुडं खादिष्यति खादिष्यति गुडं खादिष्यति सत्यं सर्वं गुडं खादिष्यति खादिष्यति ओके भवान् डेस् व्यवस्थां करोतु सर्वान् भवान् सर्वा सर्वान् व्यवस्थां करोतु सत्यं सर्वां व्यवस्थां करोतु तत्र स्त्रीलिङ्गरूपेण खलु कुक्कुरः डेस् रोटिके रोटिके अख अखादत् कुक्कुरः लेवेन् ट्वेल् कुक्कुरः स्त्रीलिङ्ग एते एते hmm. एव भवति भगिनी बहु ऐ मीन् द्वितीयविभक्तिरूपम् अपि एते कुक्कुरः ah. एते रोटिके अखादत् एते रोटिके अखादत् hmm. सत्यम् uh, uh, जनकः डेस् पालयति जनकः uh, एतौ जनकः एतौ तदपि uh, एतौ एव भवति एतौ पालयति जनकः hmm. एतौ पालयति uh, uh, यूयम् डेस् सम्यक् जानीत यूयम् युष्मान् सम्यक् जानीत वयं डेस् पश्यामः वयं वयम् अस् अस्मान् सारी वयं वयं वयं वयम् अहम् अहं वयं वयं पश्यामः वयं करेक्ट् वयम् अस्मान् पश्यामः पश्यन्तु अत्र किम् अस्ति युवाम् इति शब्दः युवाम् इति शब्दः इत्युक्ते तत्र युष्मत्प्रातिपदिकं खलु युष्मत्प्रातिपदिकं युष्मत्प्रातिपदिके हा न न चिन्ता मास्तु युवाम् अत्र पश्यतु त्वं युवां युवा त्वाम् आं युवां यु युवाम् एव द्वितीयविपक्तिरूपमपि युवामेव अत्र इत्युक्ते किं भवति तत्र किञ्चित् वारं वारं स्मारणम् आवश्यकं तत्र किं करणीयम् इति तु तत्र प्रथमान्तपदानि द्वितीयान्तपदानि सर्वेषाम् एकवारं झटिति मनसि यदा कः कौकेकं कौकान् इति काके काः काङ्किकाः एवं वारं वारं स्मरणं यदा भवेत् तदा किञ्चित् तत्र क्लेशकायि अस्ति इति अहमपि वदामि परन्तु वारं वारं तस्य पुनः एकवारं पठनं पुनः एकवारं तस्य स्मारणम् एवं कृत्वा सुलभता वर्तते अस्तु चिन्ता धन्यवादः भगिनी एकं फिफ्टीन् अधिवक्ताः अधिवक्ताः अधिवक्ताः यू एम् युष्मान् पृच्छति अधिवक्ताः युष्मान् पृच्छति युष्मान् पृच्छति सत्यं फोर्टीन् टु वन् युवां न दृष्टवती तत्र ब्राकेट् मध्ये न दृष्टवती अतः क्लेशः अत्र अहं न दृष्टवती वेनि विस्मृतवती अस्तु अस्तु चिन्ता मास्तु धन्यवादः धन्यवादः अग्रि अग्रिमे रामः भगिनी भवती पठति वा एतानि वाक्यानि पठत तत् करोति वा एतत् रेखाङ्क न एतानी पश्यन्तु एतानि वाक्यानि पठत उपरि उपरि अस्ति खलु एतानि तत् वाक्यानि पतत भक्तः देवं ज्यायति सः शान्तिम् अवाप्नोति सः सङ्ख्यां योगं च एकं पश्यति श्रद्धा श्रद्धावान् ज्ञानं प्राप्नोति त्रीणि ीति कृष्णम् आह् आह भक्तः शङ्खं त्यजति सः पद्मनाभं त्यजति त्यजति सः पद्मनाभम् अर्चयति अर्चति सात्विकः स्वर् स्वर्गं गच्छति hmm. तामसः नरकं गच्छति कविः hmm. चन्द्रं पश्यति hmm. सम्यक् चितानि अपि परनीयं तत्र हा पर्याप्तं धन्यवादः तत्र वाक्यानि सन्ति सर्वेषु वाक्येषु प्रथमं वाक्यं पश्यन्तु सर्वे भक्तः देवं ध्यायति अत्र भक्तः इति कर्ता अस्ति भक्तः देवं ध्यायति इत्युक्ते कर्मपदम् द्वितीयान्तपदं यत् अस्ति देवं तस्य द्वितीया विभक्ति देवम् यदा प्रश्ननिर्माणं कुर्मः तदा किं भवति भक्तः कम् ध्यायति किमर्थं तत् कम् आगच्छति यतोहि तद् देव इति पुल्लिङ्गिपदमस्ति अतः कह कौके कम कौकान इति ताडिका अतः भक्तः कम् ध्यायति भक्तः देवम् ध्यायति ध्यायति सर्वेषु स्थलेषु यदि द्वितीयान्तपदानि द्वितीयान्तपदानि तत् कर्मपदम् सूचयति कर्ता प्रथमा क्रियापदकर्तानुसारेण प्रचलति कर्तृपदानुसारेण प्रचलति द्वितीयान्तपदमस्ति कर्मपदम् इति अस्तु अग्रिमे भारतमहोदय अग्रिमे पठति वा रेखाङ्कितपदानाम् आधारेण पठतिवा तत् पठति वाकितपदानाम् आधारेण प्रश्ननिर्माणं कुरुत दुष्यन्तः शकुन्तलां विस्मरयति विस्मरति mm. दुष्यन्तः कां विस्मरयति कां विस्मरति दुष्यन्तः कां गेतुम् एतत् शकुन्तला इति श्रीलिङ्गिपदम् mm. का केकाः कां केकाः एवं प्रचलति अतः तत्र कां विस्मरति अत्र कुत्र अस्ति महोदय दुश्यन्तशाकुन्तला द्वयोः कथा कुत्र अस्ति अभिज्ञानशाकुन्तलम् इति अस्ति खलु महाकविकालिदासस्य रचना अभिज्ञानशाकुन्तलं तत्र कथा अस्ति तत्र दुष्यन्तः तस्य शकुन्तलायाः पाणिग्रहणं कृतवान् आसीत् परन्तु अनन्तरं सः न जानामि एषा स्त्री एतां न जानामि इति सः वदति अनन्तरं सर्वम् mm. एतत् महाकविकालिदासस्य रचना अभिज्ञानशाकुन्तलम् इति तत्र अस्ति अस्तु mm. अग्रिमे वयम् बन्धून्नु बन्धून् स्मरामः वयं कान् कान् स्मरामः उत्तमं वयं वयं कान् स्मरामः उत्तमं योग्यं कपयः फलानि खादन्ति कपयः किं खादन्ति महिला अधुना पश्यन्तु किं फलानि इति बहुवचनान्तपदं तदा किम् इति बहुवचनान्त सत्यं महिला शाटिके क्रीणाति महिला का कां महिला कां क्रीणाति अधुना शाटिका शाटिका इत्युक्ते श्रीलिङ्गला माले माता शाटी शाटिके किं भवति इति भवान् भोजनं परिवेषयति भवान् किं भवान् परिवेषयति तद् भोजनम् इति न पुस्तकलिङ्गे अतः किम् आगच्छति योग्यं सम्यक् अस्ति अग्रिमे शिक्षकः तं बोधयति शिक्षकः शिक्ष कं बोधयति योग्यं तौ इक्सुं खादतः तौ इक्षु इौ कौ खादतः न तदा इक्षुम् इति अस्ति इक्षुम् इति पुल्लिङ्गिपदम् इक्षुम् इत्युक्ते किम् इक्षु इत्युक्ते इक्षु शुगर् केन् इति खलु तत् इक्षुं खादत इत्युक्ते पुल्लिङ्गी प्रथमा इक्षु इक्षुम् इत्युक्ते इक्षु इति पुल्लिङ्गी तत्र अनन्तरं उत्तमं अत्र पश्यन्तु किमस्ति स्थितिः स्थितिः का अत्र तौ इति द्विवचनान्तमस्ति सः तौ ते तौ बालकौ वा तौ पुरुषौ छात्रौ तत्र तौ इति द्वितीया द्वितीयान्त द्विवचनान्तपदम् अतः तत्र खादतः कथं वदति वदतः वदन्ति खादति खादतः खादन्ति अतः तत्र तौ खादत परन्तु द्वयोः कृते एकमेव इक्षु अतः तत्र पुल्लिङ्गी एकवचनार्थं एक कम् इति आगच्छति तौ कं खादतः इति आगच्छति ओ ओके अस्तु अग्रिमे भवत्यः कथाः चिन्तयन्ति भवतः कान् चिन्तयति चिन्तयन्ति अधुना पश्यन्तु कथा इति कर्मपदमस्तिलिङ्गि अतः किं भवति तत्र महिलाः सन्ति सर्वे सर्वे तत्र महिलाः कथाः चिन्तयन्ति मिलित्वा अतः काः चिन्तयन्ति इति किञ्चित् काठिन्यम् परन्तु यथा अहम् उक्तवती पुनः पुनः तस्य प्रथमाविभक्तिका द्वितीयाविभक्तिका तालिकां दृष्ट्वा कदा कदा तालिकाम् अदृष्ट्वा किं किम् अहं स्मरणे किं किम् अस्ति मम एवं सर्वम् अभ्यासेन सर्वं सुलभ सुलभं भवति इति हा अस्तु महोदय धन्यवादः अधुना वीणाभगिनी भवती पठति वा अवधेयमिति अस्तु भगिनि अवधेयम् उपरितनवाक्येषु कर्मणः वचनानुगुणं प्रश्नाः दत्ताः सन्ति किन्तु सम सामा, सामान्यव्यवहारे एवं प्रयोगाः दृश्यते किं खादति किं रचयति किं निर्माति किं ददाति किं प्राप्नोति कुत्र गच्छति हा तदा सामान्ये किं खादति इत्युक्ते यदा इक्षुं सह इक्षुं खादति तदा यथा अधुना वयम् उक्तवन्तः इक्षुं खादति तत् कं खादति इति प्रश्नस्य योजना व्याकरणानुसारेण परन्तु सामान्यव्यवहारे भवान् किं खादति इति अधुना कथां कथां सः रचयति सः कथां रचयति तदा कां रचयति इति व्यवहारे कदा कदा किं रचयति भवान् इति भवि भवति एवं प्रयोगाः दृश्यन्ते व्यवहारे इति श्लोकमपि पठतु अपि रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरं शयनेयः स्मरेन्नित्यं दुःखुःखस्वप्नस्य प्न इत्युक्ते तत्र दुःखकारकस्वप्न इति यदा अस्ति चेत् तदा तत् न भवति दुःखकारक इत्युक्ते तत्र यदा मनसि भयः वा अन्य कोऽपि चिन्ता वा तत्र पिरा अस्ति मनसि वा जीवने काठिन्यमस्ति तदा तत्सर्वं तद दूर्विचाराणां तत्र तेषां दूरीकरणं भवति यदा अस्माकं स्मरणे यदा अस्माकं स्मरणे रामः वा तदा एकनिमिषं वा दृश्यते स्क्रीन् दृश्यते स्क्रीन् दृश्यते यदा अस्माकं स्मरणे रामप्रभु वा स्कन्द वा तत्र स्कन्द इत्युक्ते कार्तिकेय मुरुगस्वामी इति वदामः खलु हनुमन्त हनुमान् mm. हनुमान् हनुमान स्मरणे अस्ति वैनतेयम् इत्युक्ते विनतायाः पुत्रं गरुडः इति विनता इति गुरु विनता इति गरुडस्य माता तत् वैनतेयम् वृकोदरम् इत्युक्ते भीम भीमस्य द्वितीयः नाम तत्र द्वितीयं नाम तत् वृकोदर इति इत्य। वृक् इत्युक्ते तत् जकाल् लैक् तत् उदरम् इति हा शयनेषु स्मरणनित्यम् इत्युक्ते शयनात् प्राक् एतेषां यदा स्मरणं भवेत् तदा चिन्तायाः वा पीडायाः तत्र कोऽपि स्थानमेव न भवति अतः तत्र दुःस्वप्नाः न भविष्यन्ति स्मरणमात्रेण एतदस्ति खलु यस्य स्मरणमात्रेण जन्मसंसारम तथैव भगवतः नामस्मरणेन आधि व्याधि सर्वं नश्यति इति न परन्तु मनसि शान्ति इति तत् शान्तिं जनयति इति नामस्मरणस्य महत्त्वम् इति दत्तमस्ति अस्तु धन्यवादः आ, अदुना कथां प्रति गच्छामः अद्यदिनस्य कथा हा राधा भगिनी भवती पठितुं शक्नोति वा तत्र पठनमपि काठिन्यं भवति पठनस्य कृते अपि अस्ति वा न न शक्यते अस्तु अस्तु चिन्ता मास्तु शृणोतु आरम्भं कुर्मः हा जयन्तीभगिनी आरम्भं करोति वा प्रकृतेः नियमः इति अस्माकं कथा अस्ति अद्यदिनस्य जयनगर विजयनगरी विजयनगरसाम्राज्ये भगिनी विजयनगरसाम्राज्य विजयनगरसाम्राज्ये कर्णाटका विजयनगरसाम्राज्ये नरहरी नामः नरहरी नाम कश्चित् ग्रामिणः निवसति स्म सः वनम् गत्वा बहुकालम् यावत् तपः कृतवान् तस्य तपसा सन्तुष्टः देव नरहरे पुरतः नरहरेः पुरतः प्रत्यक्ष अभवत् प्रत्यक्षः अभवत् देवः नरहरीम् उद्दिश्य भक्त अहम् भवतः तपसा संतुष्टः अस्मि एतानि त्रीणि फलानि स्वीकरोतु भवान् पलं खादन् म मनसि यत् चिन्तयति तत् सिद्धम् भविष्यति शुभम् भवतु इति उक्त्वा त्रीणि फलानि दत्त्वा अदृश्यः अदृश्यः अभवत् नरहरिः hmm. सन्तोषेण फलानि स्वीकृत्य गृहम् आगतवान् okay. ओके uh, विजयनगर विजयनगर hmm. इति एक नगरमस्ति आसीत् hmm. तस्य नरहरि नाम ए, एक एकः मानवः आसीत् सः वनं गत्वा बहुकालं यावत् तपस् तप ता, कृतवान् तपः कृतवान् तस्य तपस्याः सन्तुष्टः देवः नरहरिं दृश्य दृष्ट्वा पृष्टवान् भवतः ऐ मीन् तपसे अहं सन्तुष् सन्तुष्टः भवा अस्मि अहं ऐ मीन् देवः तस्य पुरतः अभवत् देवः पृष्टवान् अहं भवतः तपसेन सन्तुष्टवान् भव बवा, भवामि अतः hmm. त्वं किम् इच्छति इति पृष्टवान् एतानि त्री पृष्टवान् न एतानि त्रीणि फलानि स्वीकरोतु इति फल फलत्रयं दत्तवान् फलान् खादन् hmm. मनसि यत् एत, एतानि फलानि खादित्वा तव मनसि किं किमपि चिन्तय चिन्तनं भवति तत् शुद्धं भविष्यति एतानि फलानि खादनेन मनसि किमपि चिन्ता अस्ति तत् सिद्धं भवति इति देवः उक्तवान् शुभं भवतु इति अपि इति उक्त्वा त्रीणि फलानि दत्वा अदृश्यः अभवत् देवः तत् त्रीणि फलानि दत्त्वा शुभं भवतु कल्याणं भवतु इति उक्त्वा hmm. अदृश्यः अभवत् hmm. नरहरि सन्तोषेण गृहं प्रति आगच्छन् फलं स्वीकृत्य गृहम् आगतवान् इत्युक्ते ah. hmm. ah. अधुना पश्यन्तु त्रीणि hmm. फलानि hmm. यत् कोऽपि मनसि इच्छा तत् hmm. इच्छा कापि इच्छा भवतु नाम परन्तु hmm. तेषां uh, पूर्णता तो भवति एव फलं स्वीकृत्य मनसि चिन्तयतु तेन इच्छामृतिः भवेत् इति पश्यामः अग्रिमे किं भवति अस्तु धन्यवादः धन्यवादः अग्रिमे तत् रमा भगिनी भवती पठति वा गीता भगिनी अनन्तरं रमा भगिनी गीताभगिनी पठति वा गृहस्य पुरतः पठामि गृहस्य पुरतः द्वारे ये द्वारे एव स्थित्वा नरहरे पत्नी क्षीरविक्रे क्षीरविक्रेत्रय क्षीरविक्रेता इत्युक्ते मिल्क् क्षीर इत्युक्ते क्षीर oh, मिल्क् सेलर् इति मिल्क् ah, okay. सेलर् मिल्क सः सेलर. um? oh. कलहः कुर्वती था आसीत् अतः नरशरीः तु गृहस्य पुरतः जायमानं कोलाहलं दृष्ट्वा जगति जगति जलम् अस् आस, अस्ति इति कारणात् एव एषा अस्मान् hmm. अस्मान् पश्यति अतः hmm. जगति विद्यामानं जलम् सर्वं क्षीरं भवतु इति hmm. मनसि एव चिन्तयन् एकं फलं खादितवान् hmm. नरहरिः यथा फलं खादितवान् तस्मिन् hmm. तस्मिन् एव क्षणे तस्मिन् एव क्षणे hmm. जगति सर्वत्र परिवर्तनम् आरब्धं नदी समुद्रः कूपः इत्यादीनां जलं सर्वं क्षीरं शीरम, क्षीरमयम् अभवत् hmm. देवालये देवाय समर्पिते नारिकेले अपि जलस्य स्थाने क्षीरम् एव जनाः रोदनं कुर्व खुर, कुर्वन्ति चेत् mm अपि -hmm. नेत्राभ्याम् अश्रूणां स्थाने क्षीरं आगच्छति स्म <laughs> तस्मिन् तस्मिन् <ये> एव <वा> दिने एकनिमिषं वेड् तस्मिन् एव दिन् दिने, दिने वृष्टिः आगता किन्तु जलबिन्दूनां स्थाने क्षीर uh, बिन्द बिन्द्वः एव uh, पतिताः स्वस्य hmm. सस्यं लता वृक्ष वृक्षः इत्यादीनां पर्णानां उपरि क्षीरवि क्षीरबिन् बिन्दवः एव तुषारः इव स्थि स्थिताः स्थिताः आसन् जनाः यथेष्टं क्षीरं पीतवन्तः क्षीरेण पायसम् अपि कृत्वा खादितवन्तः सन्तुष्टाः ते नरहरीं श्ला श्लाघितञ्चित् दीर्घम् अस्ति <laughs> <बाँगे। laughs> तत्र परिच्छेदं पश्यन्तु तत्र सह त्रीणि फलानि प्राप्तवान् आसीत् अधुना गृहं गच्छति गृहं गच्छति तदा तस्य पत्नी क्षीरविक्रेत्या सह कलह आसीत् इत्युक्ते तत्र कलहं कलह प्रचलत् अस्ति कल् कलहः प्रचलन् अस्ति कीदृशः कलहः तत् सामान्यरूपेण वयं जानीमः क्षीरविक्रेता कदा कदा दुग्धं जलं मिलित्वा एवं तत्र क्रयणं वा तत्र या कापि तत्र व्यवसायरूपेण सह तल मिश्रित दुग्धम भर्ती अत तलहय कारण तथा अस्ट अधुना तमीपे ईला सिताये जगती जलम अस्त जल से मेलनम दुग्धन सह तेन सर्व कल कलह से कारण किम सर्व स वंचयती वचयती फिटिंग जलम अस्त अत दुग्धे सह मेलनम अतः जगती विदम सर्व क्षीरमेंव जगति विद स्थिर तदा क्षीरे अतिकतया जलम मिल्वा ते व्यवहारूपेण उपयोग नवे ये कि जलम अस्ट जलं शीरं तत तत सर्वं जलं क्षीरं भवति इति सः चिन्तयति अधुना तस्य चिन्तनम् एकं फलमस्ति ईश्वरेण दत्तमस्ति फलम् एतत् सर्वं विचिन्त्य सः फलं खादितवान् यदा फलं खादितवान् तस्मिन् एव क्षणे तस्य वरदानम् एव अस्ति वरमस्ति तत्र अतः तत् वदति तत् जगति सर्वं सर्वत्र परिवर्तनम् आरब्धम् अधुना तत्र वर्णितमस्ति किं किं परिवर्तनम् यत्र यत्र जलं तत्र तत्र क्षीरं यत्र यत्र जलं तत्र तत्र दूतं जलं कुत्र वर्तते नद्यां वर्तते समुद्रे वर्तते कूपे वर्तते सर्वं जलं क्षीरमयं देवालये देवालये वयं नारिकेलफलम् अर्पयामः तत्र अर्प समर्पिते नारिकेलफलमपि जलः जलं नास्ति जलस्य स्थाने क्षीरम् अधुना कुर्वन्ति तदा नेत्राभ्यां नेत्राभ्यां तत्र द्वितीय द्विवचनान्त अस्ति तत्र अश्रूणां स्थाने अपि क्षीरं तत्र रोदनमपि अश् क्षीरमयं रोदनं न तु जलमयं वृष्टिः वृष्टिवृष्टेः अपि तत्र किमं जलवृष्टिः इति नास्ति क्षीरवृष्टिः अधुना लता लता लतायां वा तत्र वृक्षे सस्ये तत्र सर्वेषु तत्र पर्णानाम् उपरि क्षीरबन्धवाः एव तुषाररूपेण न तु जलबिन्दवः जनाः यथेष्टं क्षीरं पित पीतवन्त इत्युक्ते सुलभतया तेषां लाभः अभवत् क्षीरस्य अधुना क्षीर तु तस्य तस्य मूल्यमधिकमस्ति अधुना क्षीरं तु यथेष्टं ते पीतवन्तः पायसमी ये यानी युह तब ते नरहरी बहुधा श्लाघितवत श्लाघितु जना प्रशंस तुति क्ल स्थित अग्रे अग्रिमे दिने कि पशा हाँ पटु रगिनी प्रातःकालः जातः प्रातःकालः जातः जनाः मुखं प्रक्षालय प्रक्षाल सर्वं स्थिरं स्थिर स्थिररूपेण परिवर्ध परिवर्धि अस्ति इ इधी, स्मृतवन्तः क्षीरे hmm. क्षीरे नैव ते मुखप्रक्षालनं स्नानं च कृतवन्तः किन्तु hmm. ततः शुद्धिं शुद्धिः तु न जाता <coughs> प्रत्यु प्रत्युथ मालि प्रत्युतमालिन्य मालिन्यम् प्रत्यु प्रवृ प्रव्रुद्ध, प्रवृद्धं तत्र प्रत्युतमालिन्यं प्रवृद्धं इत्युक्ते प्रत्य। शुद्धिः तु न जाता आन् दोण्ट्रि मालिन्यम् एव इत्युक्ते अन्क्लिन् इति मलिनता भूमौ पादह स्थापितः चेत् पातः स्थापितः चेत् क्षीरकारणात् स्खलनं स्खलनं भवति स्म mm. मार्गे गमनगमनागमनम् एव क्लेशकरणम् आस आसीत् गृहिणी गृहिणीनां परिस्थितिः तु शो शोचनीया भोजनसमये तु क्षीरस्य पानं कस्यापि तृप्तये न अभवत् सा सायङ्कालसमये सर्वे जनाः वातावरणस्य वै वैपरि वैपरीत्यं जातवन्तः नरहरेः कारणात् एव एषा स्म समस्याः उद् उद्भूता अस्ति इति चिन्तयित्वा सर्वे अपि नरहरेः गृहम् आगत् आगतवन्तः सर्वत्र फलं यदा भवेत् सदा करोति कृपया इति तम् प्रार्थितवन्तः अधुना का स्थिति प्रथमे दिने तु जनाः यथेष्टं क्षीरं पीतवन्तः सर्वे श्लाघितवान् किंचित म्यूट करो कुर्वन्तु सर्वे अत्र एको आगच्छति तथा हा नरहरिं बहुधा श्लाघितवन्तः स्तुतिं कृतवन्तः सर्वे नरहरेः परन्तु प्रातःकाले काले आरम्भे आरम्भे एव मुखप्रक्षालनम् इति विधि तदा क्षीररूपेण परिवर्तितं जलं कथं मुख प्रक्षालनं प्रक्षा भवति स्नानं करणीयमस्ति तत् क्षीरेण स्नानम् अभवत् परन्तु क्षीरस्नानमिति ईश्वरस्य कृते देवपूजार्थं योग्यं परन्तु अस्माकं कृते क्षीरस्थानं वा क्षीरेण मुखप्रक्षालनं योग्यं वा तेन शुद्धिः भवति वा शरीरस्य मालिन्यम् अपगच्छति वा ना तदा अन भूमौ पाद स्थात चेत क्षीरकार स्खलन बोति स्म भूमौ पाद अः यदा भूमौ सर्वीर पति अस्त भूमौ पाद स्थापन पाद स्थापन करनीय यदा अस्त चेत पादाभ्या कदाचे त्रख स्खलनती कथम कार्य नमनागमनमेशक सुलभतया गमनमें न शक्य भोजन समय भोजनसम भोजना प्राकोजना जल्द आवश्यकता परंतु जल्द आवश्यकता कथम पूीया न क्षीरपान तेनाती नवयकाले सर्वे जान वातावरण से वैपरी ये जिने नरहरी श्लाघितवत अरहरे कारणा समस्या उद्भूता दोषारोपण आरब्धवे नरहरे कारणा समस नरहरे गृह आगतव अदी अ ह्यस्तन् यत् कृतवानस्ति अस्ति तत् कृपया अधुना पुनः एकवारं सर्वत्र जलं यथा भवेत् तथा करोतु क्षीरं मास्तु इजिते ते प्रार्थितवन्तः अस्तु स्पष्टमस्ति एतावत् पर्यन्तम् स्पष्टमस्ति आश्तु वा अस्तु अधुना अग्रे किं भवति पश्यामः अग्रे तथा हा मीणाभगिनी भवती पठति वा नरहरिजनानां समस्यां ज्ञात्वा हा भगिनी नरहरिः जनानां समस्यां ज्ञात्वा जगति जलस्य आवश्यकता एव अत्याधिका अस्ति इति मत्वा पुनः एकवारं जगति विद्यमानं क्षीरं सर्वं जलमयं भवतु hmm. इति वदन् द्वितीयां फलं खादितवान् सर्वे जनाः सन्तोषेण गृहं गतवन्तः आतृप्तिजलं पीतवन्तः mm -hmm. गृहस्य स्वच्छतां कृतवन्तः आकाशात् mm -hmm. पुनः वृष्टिः अपि पतिता mm -hmm. किमभवत् अत्र पश्यन्तु हा अधुना फल, प्रथमं फलं सर्वत्र क्षीरम् द्वितीयं फलम् किमभवत् अत्र भगिनि वदतु स्वशब्दैः यथा जनाः प्रार्थितवन्तः तथैव सः द्वितीयफलं खादित्वा सर्वं प्रथमे एव Uh, जलं भवतु इति प्रार्थितवन्तः तदनन्तरं तदनन्तरं सर्वे जनाः सन्तुष्टाः अभवन् स्नानं uh, hmm. कृतवान् uh, uh, सन्तुष्टरूपेण जलं uh, पी जलं पीतवन्तः इत्युक्ते किम् यावत्पर्यन्तं तृप्तिः भवति इति उपसर्ग आसेतु हिमाचल ह आ पर्यन्तम् आसेतु हिमाचल र्यन्तम् इति वयं वदामः खलु भारतभूमेः विषये तत् उपचरजलं पीतवन्तः अग्रिमे गृहस्य स्वच्छताम् अपि कृतवन्तः आकाशात् आकाशात् पुनः वृष्टिः अपि पतिता Uh, hmm. आकाशात् पुनः uh, जलं जलं पतिता जलवृष्टिः एव अभवत् क्षीरवृष्टिः hmm. जलवृष्टिः hmm. न तु क्षीरबिन्दवः परन्तु जलबिन्दवः सर्वत्र जलबिन्दवः इति hmm. hmm. स्थितिः हा इत्युक्ते इत्युक्ते तत्र सर्वं सम्यक् अभवत् इति स्थितिः भासते इति भाति hmm. अग्रिमे किं भवति अस्तु में धन्यवादः भगिनि किन्तु पुनः अन्या समस्या उद्भूता लघुशिशवः बालाः च क्षीरार्थं रोदनम् आरब्धवन्तः सर्वत्रापि शिरस्य स्थाने जलम् एव दृश्यते स्म धेनोः hmm. उद सः अपि जलम् एव आगतम् hmm. जनाः पुनः वैपरीत्यम् अवग अवगतवन्तः hmm. पुनः सर्वे सर्वेपि नरहरेः गृहं गत्वा तं प्रार्थितवन्तः यत् कथ कथश्चित् hmm. कृते हि hmm. विपरीतं hmm. सम्यक् करोतु इति hmm. यदि भवान परिवर्तनं न करोति तर्हि भवन्तं मारयामः इति नरहरिं भाय् भायितवन्तः अपि अधुना वदतु किमस्ति एतस्मिन् परीक्षे किन्तु पुनः समस्या उद्भ उद्भवति लघुशिशवः बालकः बालाः क्षीरार्थं रोदति सर्वापि शिरस्य स्थाने जलं दृश्यते धेनोः देन, उदसः अपि जलम एव आगतम् जनाः पुनः वैपरीत्यम् अवगतम् अवग अवगतवन्तः पुनः सर्वेपि नरहरे पुनः सर्वेपि नरह नरहरेः गृहं गत्वा प्रार्थ प्रार्थितवन्तः प्रार्थना प्रार्थनां कृतवन्तः इति कथश्चित् प्रकृतेः वैपरीत्यं सम्यक् करोतु इति प्रकृतेः वैपरीत्यं सम्यक् करोतु कत, कथञ्चित् मत्लब् एनि हौ वाट् एवर् यु डु परन्तु तत् परिवर्तनं करोतु कथञ्चित् वैपरीत्यं सम्यक् करोतु अधुना पश्यन्तु हा अग्रिमे अपि किं किं अन्तिमे ते किम वदन्ति जनाः भवान् यदि भवान् परिवर्तनं न करोति तर्हि भवन्तं मारयामः भवान् परिवर्तनं न करो कर्तुं शक् तर्हि भवन्तं मारयामः इत्युक्ते भयं जनयन्ति मनसि पश्यन्तु कीदृशी स्थिति परिवर्तनी संसारे इति वदामः खलु इत्युक्ते प्रथमे दिने श्लाघितवन्तः स्तुतिं कृतवन्तः द्वितीये दिन सन्तोषं प्रदि प्रदर्शितवन्तः परन्तु तृतीये दिने अपरिवर्तनं करोति चेत् मारयामः इति हा तत्र पश्यन्तु कथं लोक लोकमानसः इति वदामः खलु नरहरिं भायितवन्त भायितवन्त इत्युक्ते तत्र निजन्त रूपमस्ति भायितवन्त तत्र तव तु अस्ति परन्तु निजन्तरूपं हा तस्य मनसि नरहरेः मनसि भयं जनयति इति विधानं न परिवर्तनं करोति तत् सर्वे मिलित्वा त्वं मारयामः इति मारयामः इत्युक्ते प्रथमे दिने स्तुति द्वितीयदिने सन्तोषः तृतीयदिने ताडनम् परिवर्तनीयस्थितिः कीदृशी जनमानसः इति अधुना अग्रिमे कोऽपि शेषः अस्ति वा इदानीं पर्यन्तं न पठितवान् वा पठितवती सर्वेषां पठनम् अभवत् वा एक एकवारम् अभवत् वा अहं न पठामि भगिनि का भगिनी श्यामला भगिनी श्यामला भगिनी ओ अस्तु अस्तु पठतु श्यामला भगिनी जनानां कोपं दृष्ट्वा तत्र किं भगि जनानां कोपं जनाना, दृष्ट्वा जनानां कोपं दृष्ट्वा नरेहरिः भीतः स्वस्य काल कालतः जातायाः दुरवस्थायाः परिणामः अपि तेन अवगतः अतः सः जगति जलक्षिरयोः स्थितिः पूर्ववत् एव भवतु इति चिन्तयन् तृतीयं mm. फलं कारितवान् mm. जगत पूर्ववत् अभवत् जनाः mm. सन्तोषेण गृहं गतवन्तः किम् mm. mm. अभवत् अत्र mm. भगिनी वदति वा स्वशब्दैः प्रयत्नं करोति वा जनानां कोपः दृष्ट्वा नरहरिः बि भीतः स्वस्य कालतः स्वस्य कालतः सः सः अव अवगतं कालतः जातायाः दुरवस्थायाः परिणामः अपि तेन अवगतः त तस्य तस्य जा जातायाः परिणामः अभवत् अनन्तरं hmm. सः किं करोति अतः परिणाम अवगतम् अतः सः ज जगति जरक्षिरयोः स्थितिः पूर्ववत् एव भवतु इति चिन्तयन् तृतीयं परं कारितवान् अतः सः तृतीयं परम् अपि कारितवान् पश्यन्तु जरक्षिर जरक्षिरयोः जलक्षिरयोः स्थितिः पूर्ववत् एव भवतु इति चिन्तयन् तृतीयफलं सः खादितवान् हा पश्यन्तु तपप्रभावेण तपसः प्रभावेण त्रीणि फलानि प्राप्ति तु अभवत् त्रीणि फलानि या इच्छा मनसि आगच्छति इच्छायाः परिपूर्तिः भवति इच्छायाः यत्किमपि भवान् इच्छति तत् तस्य प्राप्तिः तु भवेदेव इति भगवान् उक्तवान् परन्तु अस्माकं चिन्तने दोषः कुत्र दोषः तपसी दोषः अस्ति वा न तपः तु जातः तपः तु जातं परन्तु दोष कुत्र अस्माकं चिन्तने एव दोषः प्रथमतः फलं खादितवान् तत् चिन्तितवान् ओ क्षीरस्थाने जलस्थाने क्षीरमेव भवतु नाम क्षीर द्वितीयदिने किमभवत् थी सर्वत्र क्षीरं क्षीरस्य आधिक्येन प्रमाणं दृष्ट्वा चिन्तितवान् न न जलमेव भवतु नाम जलस्य आधिक्येन प्रमाणं दृष्ट्वा पुनः तत्र समस्या आसीत् अधुना तृतीयं फलं करोतु इति भगवन्तं निवेदितवान् इत्युक्ते के hmm. फलानि प्राप्ते सति कोऽपि लाभः न अभवत् दोषः कुत्र चिन्तने इति अस्ति hmm. एवं खलु अधुना एकमेकं एकमेकं वदन्तु सर्वे कथायाः बोधः किं सूचयति इति वदतु आ, आ, आ, प्रकृते क्रियमाणानां सृष्ट्या यत्किमपि भवति तत् सम्यक् एव अस्ति वयं तस्य परिवर्तनार्थं न तस्य परिवर्तनार्थं किञ्चिदपि न चिन्तनीयं यदा चिन्तनं भवति प्रयासः अस्ति तत् विपरीतमेव भवति काले विपरीतबुद्धिः इति वाक्यमस्ति वृथा परिवर्तनं न आवश्यकं प्रकृतेः नियमाः तत्र प्रकृतेः नियमाः तत्र नियमा तेषु वृथा निया परिवर्तनं न आवश्यकमिति अस्माकं चिन्तनं तत्र न्यूनमस्ति भगवतः चिन्तनं विशालः तस्मिन् अस्माकं चिन्तनस्य आवश्यकता एव नास्ति होदय क्षम्यताम् अहं न दृष्टवती क्षम्यतां क्षम्यतां किञ्चित् किञ्चित् विलम्बेन आगतवान् अस्तु अस्तु अधुना भवान् वदति वा कथायाः विषये धन्यवादः अधिक प्रयासं वरं प्राप्नोति चेत् कर्तुम् एव इत्युक्ते वरप्राप्ते सति अपि यदा अस्माकं चिन्तनं योग्यं नास्ति मम इच्छा का इच्छानुसारेण किम् अहं किम् इच्छामि मम आवश्यकता का मम इच्छा का मम उद्देशका जीवने कस्य प्राप् म् अहम् इच्छामि यदि तस्य विषयकः सम्यक् अवगमनं स्वस्य मनसि एव न भवेत् तदा वृथा तत्र विपरीतता वयं दृष्टवन्तः कथायां विपरीत विपरीत आचरणं भवति सत्यं योग्यम् अन्यैः तत् भारतमहोदय वीणाभगिनी वदति वदतिवा प्रकृतिनियमः uh -huh. परिवर्तन न, न इच्छतु uh -huh. नियमः योग योग्य योग्य अत्र ए एकं सत्यं यथा भवान् तत्र स्वभावः प्रकृतिजन्यः इति भगवद्गीतायामपि अस्ति खलु अस्माकं स्वभावः तत् प्रकृतिजन्यः अस्माकं रूपं बाह्यरूपं तत् प्रकृतिजन्यः बहवः जनाः चिन्तयन्ति स्वस्य रूपस्य विषये बाह्यरूपस्य विषये परन्तु तत्र परिवर्तनं न शक्यते परिवर्तनं कुत्र आचरणे वा अस्माकं मनसि वा तत्र अस्माकम् अन्तःप्रेरणा अन्तःप्रेरणायां तत्र परिवर्तनं शक्यते परन्तु प्रकृतेः विधानाः सन्ति तेषु परिवर्तनं न शक्यते योग योग हा तत्र राधा राधा मेसेज् मध्ये लिखितवती तत्र पश्यामः किमस्ति तत् चाट् मध्ये बी केर्फुल् बौट् यू बीच् फार् इस् वन् आफ़् द लेसन्स् आफ़् द स्टोरी सत्यं सत्यम् अस्माकम् इच्छा इच्छा का तत्र इच्छायाः विषये अपि अस्माकं स्वाधीनता भवेत् किम् इच्छामि तस्यापि चिन्तनं सम्यक् भवेत् नो चेत् सर्वं भवति जनानां विषये वदामः एकस्मिन् दिने जना तत्र स्तुतिं कुर्वन्ति द्वितीयदिने सन्तोषं प्रदायति तृतीयदिने तु मार ताडनं कृत्वा अपि ते सज्जाः भवन्ति अस्माकं चिन्तने दोषः न भवेत् दोषपूर्णचिन्तनम् एव अनर्थस्य कारणम् अस्तु अन्य कोऽपि वदति वा किमपि वयं किमपि वयम... आशायाः to to know the that uh, it has to be what to say whatever we wish we hate has to be uh uh whatever we wish no life uh, it has to be uh, good in not in a negative uh manner instead in the positive manner mm hmm mm hmm hmm तत् अस्ति चेत् वयं सम्यक् सम्यक् अस्ति अवगतम् अधुना वीणा भगिनी वीणा भगिनी अस्माकं कोरि कोरिकाः प्रक् अनुसृत्य अस्माकं चिन्तनं भवेत् बहु सम्यक् बहु सम्यक् वेरि नैस् सत्यं सत्यम् अस्माकं चिन्तनम् अपि प्रकृतिम् अनुसृत्य भवेत् तदा तत्र क्लेशः न भवति तदा तत्र समस्या न भवति प्रकृति अनुसृत्य एव अत्र एकम् उदाहरणं ददामि अहं तत सामान्यतया गृहे तत्र अस्माकं कोऽपि बालकः यदा कस्यापि गृहे तत्र बालकस्य मनसि का इच्छा का अभिलाषा अस्तु अहं तत एवम् एतस्य पठनं कर्तुम् इच्छामि अहं कलाशाखायां गन्तुं कलाशाखां गन्तुम् इच्छामि अहं विज्ञानशाखां गन्तुम् इच्छामि नो चेत् अहं वाणिज्यशाखायाः चयनं करोमि बालकः बालका बालकस्य कोऽपि इच्छा तस्य अपि विचारः करणीयः बहुत्र एतत् दृश्यते छात्राणां रुचिविषयकः चिन्तनम् एव न भवति हाँ रुचि विषयक चिंत भे तुके तस् सह की विचाराण सक चर्चा तत्र आदानदनम त्र तदा भव योग्य प्रकारे अग्रिम सह कार्य कर्म सक्षम भाष्य एवं खलु एकविषयम् एक मनसि मान, मान, इदानीम् उत्पन्नः वदामः वदामि वा अस्माकं शरीरम् अपि वरम् एव इति अहं मन्ये तस्य प्रयोजनम् अपि सद्विषये भवेयम् इति अहं चिन्त चिन्त चिन्तय चिन्तयति इतोपि इतोपि अधिकं किं वदति वा एतस्मिन् विषये इमिन मीन् तस्य प्रयोजनं सम्यक् रीत्या वयं कुर्मः इति भगव भगवता सृष्ट्या वयमपि प्रकृते अस्ति अस्मि एव तस्य प्रयोजनमपि सम्यक् रीत्या भवेत् बहु बहु सम्यक् उत्तमम् उत्तमं मम प्रयोजनं किम् अस्ति मम प्रयोजनं किम् अस्ति अत्र अहं जीवामि तस्य अपि अवगमनं सम्यक्रीत्या भवेत् मम कर्तव्यम् अधुना मम कर्तव्यं किं मम दायित्वं देख किं तस्य विषये मम कथम् अहं योजनां करोमि एतस्य सर्वस्य चिन्तनं कृत्वा एवं वयम् अस्माकं जीवनं यापयामः इति हा hmm. नो चेत् तत्र hmm. जीवने अपि व्यर्थता उद्भव उद्भवति hmm. तत् अयोग्यमेव hmm. एतत् सर्वं hmm. योग्यं बहु सम्यक् बहु hmm. सम्यक् hmm. अस्तु उत्तमप्रकारे चिन्तनं हा हा यदा सर्वे जनाः भगिनी एतादृशकार्यं कुर्वन्ती तदा तो तु इदानीं भूमिः स्वर्गं भविष्यति <laughs> बहु सम्यक् बहु सम्यक् धन्यवादः अस्तु अस्तु सम्यक् बहु सम्यक् यदा तु वयम् अद्यदिने एव वयं सर्वे गीता गीतासोपानछात्राः वयं तु आरम्भं कुर्मः भगवता भाँगत, सृष्ट्या असुराः अपि अपि सन्ति स्थूराः अपि सन्ति खलु <laughs> <आम, आम. laughs> उत्तमम् उत्तमम् अस्तु एषः वर्गः एषः वर्गः तु सन्तोषस्य विषयः आनन्दस्य विषयः अस्तु अग्रिमे अग्रिमे बुधवासरे मेलिष्यामः वेणी स्वरूपमहोदय कृते ुक्रवारेवासरे मम वर्गः अस्ति तस्मात् प्राक् वदिष्यामि निश्चयेन वेट् कुत्र भी अम्बिकापति महोदय भवान् वदति वा शान्तिमन्त्रं कृपयाप्रजाप्य परिपालयतां न्यायेन मार्गेन महिं महिषाः गोब्राह्मण्योभमस्तु नित्यं लोका समस्ता सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादः दैन्य। अम्बिकापति कृपया अग्रिमे वर्गे यदि भवान विलम्बेन आगमिष्यति तर्हि कृपया माम सूचयतु एकवारं चिन्ता मास्तु विलम्बेन दत्तवती भगिनी अस्तु अहं वदामि किं भवति तत् स्क्रीन् शेर् यदा आरम्भं करोमि तदा मया न दृश्यते के के जनाः तत्र सन्ति इति कृपया मां सूचयः जयन्ति किमपि वदतु हा अस्माकं वर्गे कर्पहं नाम नाम्ना एक छात्रा अस्ति खलु बेनि तस्य <coughs> योजनेन किमपि ऐ मीन् समस्या अस्ति इति मन्ये पुनः एकवारं लिंक प्रेषयामः वा अस्माकं ग्रूप् मते अस्तु एवं करपग ओके? कर्पगम, ओहो कर्पगम, अस्तु कर्पगम, अस्तु कर्पकम् अस्तु अस्तु भा, भवती भा, जानाति वा आं मम वर्गे एव अस्ति भगिनी सा अस्म् अहमेव योजितवती अहमेव योजितवती अस्तु अस्तु एताबैनी कर्पहं भगिनी सर्वे अस्तु एकवारं प्रेषयिष्यामि अहं हा अस्माकं लिङ्क् प्रेषयिष्यामि अस्माकं गडि अस्तु जि सर्वेषां धन्यवादः भगिनि धन्यवादः धन्यवादः पुनर्मि